वैदिकप्रार्थना ॐ तेजोसि तेजोमयधेहि ॐ वीर्यमसि वीर्यं मैधेहि ॐ बलमसि बलं मैधेहि ॐ ओजोषि ओजो, ओजो मैधेहि ॐ मन्युरसि मन्युं मैधेहि ॐ सहोषि सहो, सहो मैधेः ॐ तनुपा अग्निषु सन्वं मे ॐ अग्निस्यायुर्मे देहि ॐ वर्षोदा अग्निसि वर्षो मे देहि ॐ अग्नियन्मे तन्वा ऊनम् तन्व आपृणा